अथ अष्टाचत्वारिंशम् दशकम् मुदासुरौघैस्त्वमुदा रसम् मदैरुदीर्यदामोदर इत्यभिष्टुतः मृदूदरः स्वैरमुलूखले लगन्न दूरतो द्वौक कुभावुदैक्षथाहम् कुबेरसूनुर्नळ कूबराभिधः इति प्रथाम् गतः महेश सेवाधिगतः सुरापगायाम् किल तौ मदोत्कटौ सुरापगा यद्बहुयौ अतावृतौ विवाससौ केलिपरौ सनारदो भवत्पदैक प्रवणो निरैक्षत भिया प्रियालोकमुपात्तवाससम् पुरो निरीक्ष्यापि मदान्धचेतसौ इमौ भवद्भक्त्युपशान्ति सिद्धये मुनिर्जगौ युवामवाप्तौ ककुभात्मताम् चिरम् हरिम् निरीक्ष्याथ पदम् स्वमाप्नुतम् इतीरितौ तौ भवदी क्षण स्पृहाम् गतौ व्रजान्ते ककुभौ बभूवतुः अतन्द्रमिन्द्र दृयुगम् तथाविधम् अभाजि शाखिद्वितयम् यदा त्वया तदैव तद्गर्भतलान्निरेयुषा महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपिस्तवैः इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ मुनिप्रसादाद् भवदङ्घ्रिमा ततस्तरूदारण दारुणारव प्रकम्पि सम्पाति निगोपमण्डले विलज्जितत्वज्जननी मुखे देन भवान् विमोक्षदः महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावाद परीक्षतोऽधुना इति ब्रुवाण निर्गमितो इत्यष्टाचत्वारिंशम् दशकम्